अथ पञ्चदशः सर्गः मेधावी तु ततो ध्यात्वा स किञ्चिदिदुत्तरम् करिष्यामि पुत्रियाम् पुत्रकारणात् अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धाम् विधानतः ततः प्राक्रमदिष्टिम् ताम् पुत्रीयाम् पुत्रकारणात् जुहावाग्नौ च तेजस्वी मन्त्रदृष्टेन कर्मणा ततो देवाः स गन्धर्वाः सिद्धाश्च परमर्षयः भागप्रतिग्रहार्थम् वै समवेता यथा विधि ताः समेत्य अब्रुवम् लोककर्तारम् ब्रह्माणम् वचनम् ततः भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः सर्वान्नो बाधते वीर्याच्छासितुम् तम् न त्वया तस्मैव रोदत्तः प्रीतेन भगवंस्तदा मानयन्तश्च तम् नित्यम् सर्वम् तस्य क्षमामहे उद्वेजयति लोकान् स्त्रीनुच्छ्रिताम् द्वेष्टिदुर्मतिः शक्रम् त्रिदश राजानम् प्रदर्शयितुमिच्छति ऋषीन् यक्षान् स गन्धर्वान् ब्राह्मणा न सुरांस्तथा अतिक्रामदि दुर्धर्षो वरदानेन मोहितः नैनम् सूर्यः प्रतपति पार्श्वे वातिनमारुतः चलो मिमाली दृष्ट्वा समुद्रोऽपि न कम्पते तन्महन्नो भयम् वधार्थन्तस्य भगवन्नुपायं भगवन्पायम् कर्तुमर्हसि एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत् हन्तायम् विदितस्तस्य वधोपायो दुरात्मनः तेन गन्धर्वयक्षाणाम् देवतानाम् च रक्षसाम् अवध्योऽस्मीति वा च तन्मया नाकीर्तयदवज्ञानात् तद्रक्षो मानुषांस्तदा तस्मात् समानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते एतच्छ्रुत्वा प्रियम् वाक्यम् ब्रह्मणा समुदाहृतम् देवा महर्षयः सर्वे प्रहृष्टास्ते भवंस्तदा एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः वैनतेयम् समारुह्य भास्करस्थोयदम् यथा तप्तःटककेयूरो वन्द्यमानः सुरोत्तमैः समाहितः तमब्रुवन् सर्वे समभिष्टूयसन्नताः त्वाम् नियोक्ष्यामहे ज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो धर्मज्ञस्य वदान्यस्य महर्षि समतेजसः अस्य भार्यासु तिसृषु ह्री श्रीकीर्त्युपमासु च विष्णोपुत्रत्वमागच्छ कृत्वाऽऽऽऽऽऽऽऽऽऽत्मानम् चतुर्विधम् तत्र त्वम् मानुषो भूत्वा प्रवृद्धम् लोककण्टकम् अवध्यम् दैवतैर्विष्णो समरेजहि रावणम् स हि देवान् स गन्धर्वान् सिद्धांश्च ऋषि सत्तमान् राक्षसो रावणो मूर्खो वीर्योद्रेकेण बाधते ऋषयश्च ततस्तेन गन्धर्वाप् सरसस्तथा क्रीडन्तो नन्दनवने रौद्रेण विनिपातिताः वधार्थम् वयमायातास्तस्य वै मुनिभिः सह सिद्धगन्धर्वयक्षाश्च ततस्त्वाम् स्वङ्गतिः देव परमादेव सर्वेषाम् नः परन्तप वधाय देवशत्रूणाम् नृणाम् लोके मनः कुरु एवं स्तुतस्तु देवेशो विष्णुस्त्रिदश पुङ्गवः पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः अब्रवीत्रिदशान् सर्वान् समेतान् धर्मसंहितान् भयम् त्यजत भद्रम् वोहितार्थं युधिरावणम् स पुत्रपौत्रम् सामात्यम् समन्त्रिज्ञातिबान्धवम् हत्वा क्रूरम् दुराधर्शम् देवर्षीणाम् भयावहम् दशवर्षसहस्राणि दशवर्षशतानि च मत्स्यामि मानुषे लोके पालयन् पृथिवीमिमा एवम् दत्त्वा देवो देवानाम् विष्णुरात्मवान् मानुष्ये चिन्तयामास जन्मभूमिमथात्मनः ततः पद्मपलाशाक्षः कृत्वाऽऽऽत्मानम् चतुर्विधम् पितरम् रोचयामास तदा दशरथम् नृपम् ततो देवर्षि गन्धर्वाः सरुद्राः साप्सरोगणाः स्तुतिभिर्दिव्यरूपाभिः स्तुष्ट्वा मर्मधुसूदनम् तमुद्धतम् रावणमुग्रतेजसम् रावणम् साधु तपस्वि कण्ठकम् तपस्वि नामुद्धरतम् भयावहम् तमेव हत्वा सबलम् स बान्धवम् रावणमुग्रपौरुषम् स्वर्लोकमागच्छ गतज्वरश्चिरम् सुरेन्द्रगुप्तम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये बालकाण्डे पञ्चदशः